श्रीगुरुभ्यो नमः हरिः ओ गणानान्त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतः न शृण्वन्ोतिभिः सीदसाधनम् श्रीविघ्नेश्वराय नः वाजे सरस्वति वाजे देपि सरस्वती वाजेभिर्वाजिनीवती धीनामविद्र्यवतु संसरस्वत्यै नमः सरस्वतिनमस्तुभ्यम्बरदे कापरूपिणी विद्यारम्भं करिष्या वि सिद्धिर्भवतु मे सदा ॐ वेदवातस्य वर्तनि मुरोर्श्वस्य बृहतः वेदाय अध्यासते श्रीवेदपुरुषाय नमः साक्षान्मूलप्रमाणाय विष्णोरमिततेजसे आद्याय सर्ववेदानाम् ऋग्वेदाय नमो नमः अथर्वेदे प्रथमाष्टके प्रथमोऽध्यायः ओ अग्निमीहितस्य दे देवमृत् ओतारं रत्नथातमम् अग्निः पूर्वेभिरऋषिभिरेड्यो नूतनैरुता रुता देवाङ्गे हवक्षति ग्निना रजिमश्नवत्पोषमेव दिवे दिवे यशसं वीरवत्तमम् अग्नेयम् यज्ञवद्धरम् विश्वतः परिभूरसि स इद् देवेषु गच्छति अग्निर्भोधा कविक्रतुः सत्यश्चित्रश्रवस्तमः देवो देवेभिरागमत् यदङ्गदाशुषे त्वमग्ने तवेत्तत्सत्यमङ्गिरः उपत्वाग्ने दिवे दिवेदिवेदोषावस्तर्धिया वयम् न नो भरन्त एमसि राजन्तमधराणाङ्गोवामृतस्य दी दिविम् वर्धमानम् स्वेदमेः स नः पितेवसूनवेग्नेः सूपायनो भव स च आहि दर्शते मे सोमारम् कृताः तेषाम् पाहि श्रुति हवम् वायमुक्थेभिर्जरन्ते त्वामच्छाजरिताराः सुतसोमाहर्विलाः वायोतमप्रवृञ्चतीथेनाजिगादिदाशुषे उरूजी सोम पीतये इन्द्रवायो इमे सुता वप्रयोभिरागतम् वा इन्द्रवो वामुषन्तिः वाजविन्द्रश्च चेतथः सुतानाम् वाजिनी वसु तावाया आतमुपद्रवत् वाजविन्द्रश्च सुन्वत आया आतमुपनिष्कृतम् मक्ष्वी इत्थाधिया नरा मित्रम् भुभे पूतदक्षम् वरुणम् च दिशादसम् धियम् कृताचीम् साधन्ता ऋतेन मित्रावरुणा वृता वृथा वृतस्पृशा क्रतुम् बृहन् दमाशाथे कवीनो मित्रावरुणा तु विजाता उरुक्षया दक्षन् दधाते अवसन् अश्विनाज्वरीरिषोद्रवत्पाणि शुभस्पती उरुभुजा च नस्य तम् अश्विना पुरुदं ससा नराशवीरजा धिया धिष्ण्यावनतङ्गिराः दस्रा युवाकवः सुता नासत्यावृत्तवर्हिषः आया आतम् रुद्रवर्तनी इन्द्राया आहि सुता ये त्वायवाः अण्वेभ्यस्तनाः पूतासाः इन्द्राया हि धिये हितो विप्रजूतः सुतावतः उपब्रह्माणि वाघताः इन्द्राया हितो तु जान उपब्रह्माणि हरिवः सुते दधिश्वनश्च नाः ओमासश्च ऋषणि धृतो विश्वे देवास आगता दाश्वांसो दाशुषः विश्वे देवासो अप्तुरः सुतमागन्ततोर्णयः पुस्रा इव स्वसराणि विश्वे देवासो अस्रिधयेहि मायासो अद्रुहाः मेधम् जुषन्त वह्नयः पावगानः सरस्वती वादेभिर्वाचिनीवती यज्ञम् वष्टुधिया चोदयित्री सूनृतानाम् चेतन्ते सुमतीनाम् यज्ञन्दधे सरस्वती महो अर्णः सरस्वती प्रचेतयति केतुना धियो विश्वाभिराजति सुरूपकृत्नमूतये सुदुघामिव गोधुहे विद्यै उपनः सपनागहि सोमस्य सोम पाः गोदाविद्रेवतो मदाः अथा ते अंतमानां विद्यामसुमतीनाम् मानो अतिख्य आगहि परेहि विग्रमस्तृतमिन्द्रम् रक्षाविपश्चितम् यस्ते सखिभ्य आवरम् उदब्रुवन्तु नो निदो निरन्यतश्चिदारत दधा ना इन्द्रयिद्ुवाः उदनः सुभगाङ्गरिर्वोचेयुर्दस्मकृष्टयाः स्यामेदिन्द्रस्य शर्मणि एमाशु माशवे भरयज्ञश्रियन्द्रमादनम् पतयन्वन्दयत्सखम् अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः प्रावो वाजेषु तन्त्वा बाजेषु वाजिनम् वाजयामश्शतक्रतो धनामिन्द्रसातये यो रायोवनिर्महान्सुपारः सुन्वतः सखा तस्मादिन्द्रायगायत आद्वेतानिषी दतेन्द्रमभिप्रगायत सखाय सोमवाहसः पुरुतमम् पुरूणामीशानम् वार्याणाम् इन्द्रम् सोमे स चासुते सखा नो योगः भुवत्स राजे स पुरन्ध्याम् गमद्वाजेभिरासनाः यस्य संस्थेन वृण्वते हरिः समत्सुशत्रवः तस्मादिन्द्राय गायत सुत आव्ने सुता येषु च योयन्ति पीतये सोमा आसो दध्या शिरः त्वम् सुतस्य पीतये सद्यो वृद्धो अजायथाः इन्द्रजैष्ठ्याय सुक्रतो आत्वा विशन्ताशवः सोमा आस इन्द्रगिर्वणः शन्ते सन्तु प्रचेतसे स्तोमा अविरुधन् त्वा मुक्था शतक्रतो त्वाम् वर्धन्तु नो गिराः अक्षितोदिः समेदिमम् वाजमिन्द्रः सहस्रिणम् यस्मिन्विश्वा निपौंस्याः मा नो मर्ता अभिद्रुहन्त लोनामिन्द्रगिर्वणः रोचन्ते रोचनादिवे युञ्जन्त्यस्य काम्याः रेविपक्षसारथे शोणा धृष्णो नृवाहसा केतुं कृण्वन्न केतवेपेशो मर्या अपेषसे समुषद्भिरजा यथाः आदह स्वधामनुपुनर्गर्भत्वमेरि दधा आना नाम यज्ञम् वीणुचिदारुजत्नुभिर्गुहाजिदिन्द्रवह्निभिः अविन्द उस्रिया नो देवयन्तो यथा मतिमच्छा विदद्वशृङ्गिराः महामनोषतः श्रुतम् इन्द्रेण संभिद्रक्षसे सञ्जग्मानो अभिभ्युषा मन्दो समानवर्चसा अनवर्गैरभिद्विभिर्मखः सहस्वदर्चति गणैरिन्द्रस्य काम्यैः अतः परिज्वन्नागहि दिवो वा रोचना दधि समस्मिन्द्रञ्जते गिराः इतो वा सातिमीमहे दिवो वा पार्थिवादधि इन्द्रम् महो इन्द्रम् वाणीरनुषत इन्द्र इद्धर्योः स चा सम्मिश्रावचोयुजा इन्द्रो वज्रेरण्यजाः इन्द्रो दीर्घाय चक्षसा सूर्यम् रोहयद्दिवे विगोभिरद्रिमैरयत् इन्द्रवाजेषु नव सहस्रप्रथनेषु च उग्र उग्राभिरुतिभिः उग्रा इन्द्रम् वयं महाधन इन्द्रमर्भे हवामहे विजयम् वृत्रेषु वज्रिनं स नो सत्रादा वन्नपावृधि सत्रादावन्नपावृधि अस्मभ्यमप्रतिष्कृतः तुञ्जे तुञ्जेय उत्तरे स्तो मा इन्द्रस्य वज्रिणाः न अस्य सुष्ठुतिम् वृषा यूथे भवम् सगः कृष्टेर्यर्त्योजसा ईशा आनो अप्रतिष्कृतः यकश्चर्षणीनाम्बसो नाभिरज्यते इन्द्रः पञ्चक्षितीनाम् इन्द्रम्बो विश्वतस्परिहामये जनेभ्यः अस्माकमस्तु केवलः ऐन्द्रसादसिम् हृदयिम् सचित्वा नम् सदासहम् वर्षिष्ठमूतये भर नियेन मुष्टिहत्य जानिभृत्रा रुणधामही त्वोता सोऽन्यर्वता इन्द्रत्वोतासा वयम् वज्रम् घनादधीमहि जये मसंयुधि स्पृथाः वयम् शूरेभिरस्रभिरिन्द्रत्वया रुजा वयम् सा सह्यामकृतन्यतः महान्द्रः परस्तनुमहित्वमस्तु वज्रिणेः द्यौर्नप्रथिनाशवाः समोहे वायशतनरस्तोकस्य सनितौ विप्राः सोबाधियायवाः यः कुक्षिः सोमपातमः समुद्र इव पिन्वते उर्वीरापो न काकुदाः एवाह्यस्य सुदृताः विरप्षि गोमतीमही पक्वाशाखानदाशुषे वाहितेर्विभूतय ऊतय इन्द्रमावते सद्यश्चित्सन्ति दाशुषे हेवाह्यस्य काम्या स्तोम ऊक्थम् शशंस्या इन्द्रायसोम पीतये इन्द्रे हिमत्स्यन्धसो विश्वेभिः सोमपर्वभिः महाङ्गभीष्टिरोजसा ये चक्रिम् विश्वानिचक्रजे मत्स्वा सुि प्रमन्दिभिः स्तोमेभिर्विश्वचर्षणे स चैषु सवरेष्वा असग्रमिन्द्र ते गिरः प्रतित्वा मुदहासत अजोषा वृषभं वतिम् सञ्चोदयचित्रमर्वाग्राध इन्द्रवरेण्यम् असदित्ते विभु प्रभो अस्मासु तत्र तो दयेन्द्रराजैरभस्वतः त्वमिद्यम् न यशस्वतः सङ्गोमदिन्द्रवाजवदस्मे पृथुश्रवो बृहद् विश्वायुर्धे ह्यक्षितम् अस्मेधेः श्रवो बृहद्युम्नम् सहस्रसा तमम् इन्द्रतारथिनीलिशाः वसोरिन्द्रम् वसुपतिम् गीर्भिर्गृणन्तर्ग्न्यम् होमगन्तारमूतये सुते सुतेऽन्योगसे बृहद्बृहतये दरिः इन्द्राय शूषमर्चते गायन् यत्त्वा गायत्रिणोर्चन्त्यर्कमर्किणाः ब्रह्माणस्त्वाशतक्रतरुद्वंशमि भये विरे यत्साधोः सानुमारुहद्भूर्य स्पष्टकर्तम् न्द्रो अर्थम् चेतति यूथेन वृष्णिरेजति युक्ष्वा हि केशिना हरे कृषणाक्ष्यप्रा अथा न इन्द्रसोमपा गिरामुपश्रुतिम् चरा एहि स्तोमाङभिस्वराभिगृणेह्यारुवा ब्रह्मच नो वसोऽसचेन्द्रयज्ञम् च वर्धय उक्थमिन्द्रायशं संवर्धनम् शक्रो यथा सुतेषु नो रारणत्सख्येषु च तमित्सखित्व ए महेतम् राजेतम् सुवीर्ये स शक्र उत नः शकदिन्द्रो वसुदयमानः सुविव्रतम् सुनिरजमिन्द्रत्वादा तमिद्यशाः गवामपौ रजम् रुधि कृणुष्व राधो रद्रिवः न देशः सर्वतेरपः सङ्गा अस्मभ्यम् तो नु हि आश्रुत्कर्णश्रुते हवन्नो चिद्दधिष्वमे गिराः इन्द्रस्तोममिमम् मम कृष्वा विद्माहि त्वा पृषन्दमम् वाजेषु हवनः श्रुतम् ऋषन्दमस्य होमः ऊतिम् सहस्रसा न यमायुःप्रसूतिरकृते सहस्रसामृषिम् परित्वा गिर्वणो गिर इमा भवन्तु विश्वताः वृद्धायुमनुवृद्धयो जुष्टाः भवन्तु जुष्टयः इन्द्रम् विश्वाः अविवृथन् समुद्रव्यचसङ्गिराः रथेतमम् रथीनाम् वाजानाम् सत्पतिम् पतिम् सख्येत इन्द्रवाजिनो माभे मशमसस्पते मभिप्रणोनुमोचेता रमपराजितम् पूर्वैरिन्द्रस्य रातयो न विरस्योतया यदेवाजस्य गोमतस्तोत्रभ्यो मं हते मखम् पुराम् हिन्दुर्युवा कविरमितौ जायत इन्द्रो विश्वस्य कर्मणो धर्ता वज्रीपुरुष्टुतः त्वम् वरस्य कोमतोपा वरद्रिगोपिलम् देवा अभिभ्युषस्तुज्यमानास आविशुः तवाहंसूररातिभिः प्रत्यायम् सिन्धुमावदन् उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवाः मायाभिरिन्द्रमायिनन्तम् सुष्णमवातिरः विदुष्टे तस्य मेधिरास्तेषाम् इन्द्रवीशाः नवोजसाभिः स्तोमाः अनूषत सहस्रयस्य रातय उत वासन्ति भूयसे अग्निन्दूतमृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् अग्निमग्निम् हवेमभिः सदा हबन्धविष्पतिम् अव्यवाहम् पुरप्रियम् अग्नेः देवाङ्गावहजज्ञानो वृत्तबर्हिषे असि होता नदीड्याः ताङ् उशतो विबोध यदग्नेयासि दोत्यम् देवैरासत्सि बर्हिषे घृता हवनदीदिवः प्रतिस्मरिषतो दः अग्ने त्वम् रक्षस्विनाः अग्निनाग्निः समिध्यते जुह्वास्यः कविमग्निमुपस्तु हि सत्यधर्माणमध्वरे देवममीवचातनम् यस्त्वामग्ने अविष्पतिर्दूतम् देवसपर्यते तस्य स्म प्रापिता भव यो अग्निर्देवरीतरे अविष्माविवासते तस्मै पापकमृळय सरः पावकलिदिवोऽग्ने देवाङ्गिहावः उपयज्ञम् हविश्चनः स नस्तवा नाभरगायत्रेण नवीयस रजिम् भीरवतेमिषम् अग्नेः शुक्रेण शोचिषा विश्वाभिर्देवभूतिभिः इमम् स्तोमञ्जुषस्वनः सुसमिद्धो न आवह देवाङ्ग्ने हविष्मते ोतः पावकयक्षिता मधुमन्तम् तनो नपाद्यज्ञम् देवेषु नः कवे अर्द्याकृणुहि वीतरे न राशंसमिह प्रियमस्मिन् यज्ञ उपह्वये मधुजह्वम् हविष्कृतम् अग्ने सुखतमेरथे देवामनुर्ह्यः स्तृणीतवर्ह्या नृषघृतपृष्ठम् मनीषिणः यत्रामृतस्य चक्षणम् विश्रयन्तामृता वृथोद्वारो देवी रसश्च ताः अद्या नक्तोषासाः सुपेशसास्मिन् यज्ञ उपह्वये इदन्नो बर्हिरासदे तासु जिह्वा उपह्वये होताः रारेव्याः कवी यज्ञन्नो यक्षतामिमम् पीडासरस्वतीमही तिस्रो देवीर्मयो भुवाः बर्हि स्येदन्तश्रिधाः इह त्वष्टारमग्र्यम् विश्वरूपमुपह्वये अस्माकमस्तु केवलः अवसृजा वनस्पते देवदेवेभ्यो हविः प्रदातुरस्तु चेतनं स्वाहा यज्ञम् कृणोतनेन्द्रायज्वनो गृहे तत्र देवामुपहक्वये अयिभिरग्ने दुभो गिरो विश्वेभिः सोमपीतये देवेभिर्याहि यक्षि च आता कण्वा अहोषतघृणन्ति विप्रतेधिया देवेभिरग्न आगहि इन्द्रवायो बृहस्पतिम् मित्राग्निम् पूषणम् भगम् आदित्यान्मारुतम् गणम् प्रवोभ्रियन्त इन्दवो मत्सरामादयिष्णवाः द्रप्सा मध्वश्च मूषदाः ईळते त्वामवस्य वह्वासो वृत्तवर्हिडः हविष्मन्तो अलङ्कृताः घृतपृष्ठा मनो युजोये त्त्वा वहन्ति वह्नयः आदेवान्थोमपीतये जत्रामृता वृथोऽग्ने पत्नीवतस्कृति मध्वस्व जिह्वाजय ये यजत्राय ईड्यास्ते ते पिबन्तु जिह्या मधोरग्ने वषट्कृति आकीम् सूर्यस्य रोचनाद्विश्वान् देवाङ्गुषर्बुधाः विप्रोहो ते ह विश्वेभिः सौम्यम् मध्वग्न इन्द्रेण वायुना पिबा मित्रस्य तामभिः तम् होतामरुर्हितोऽग्ने यज्ञेषु सीदसि हरितो देवरोहिताः ताभिर्देवाः ता इन्द्रसोमम् पिब ऋतु मत्सरा मरुतः पिबत ऋतुना पोत्राद्यज्ञम् पुनीत योऽयम् हिष्ठा सु दानवः अभियज्ञम् गृणीहि नोग्ना वोनेष्टः पिब ऋतुनाः त्वम् हि रत्नथा असि अग्नेः देवाङ्गिहावः सादया यो निषु त्रिषु परिभूष ब्राह्मणादिन्द्रराधसाः पिबासो ममृतो नृ नो तवेऽधिसख्यमस्तृतम् युवम् दक्षन्धृतौरतमित्रावरुणदुर्लभम् ऋतुना यज्ञमाशाथे द्रविणोदा द्रविणसोग्रावहस्तासो अध्वरे यज्ञेषु देवमीडते द्रविणोदा ददातु लोमसो नियानि शृण्विरे देवेषु तावनामहे द्रविणोदाः पिपीषति जुहोतप्रचतिष्ठत नेष्ट्रा ऋतुभिरिष्यत यत्त्वा तुलीय मृतुभिर्द्रविणोदो यजामहे अधस्मानो दतिर्भव अश्विनापिबतम् मथुरेद्यग्नेषु चिव्रता ऋतुना यज्ञवाहसा गार्हपत्येन सन्त्यऋतुना यज्ञनीरसि देवान्देवयते यज आत्वा वहन्तु हरयो वृषणम् सोमपीतये इन्द्रत्वासूरचक्षसः इमाधानाघृतस्तु वो हरे इहोपवक्षतः इन्द्रम् सुखतमे रथे इन्द्रम् प्रातरह वामः इन्द्रम् प्रयत्यद्धरे इन्द्रम् सोमस्य पीतये उपनः सुतमागहि हरिभिरिन्द्रकेशिभिः सुते हि त्वाहवामहे सेवन्नः सोममागह्युपेदम् सवनम् सुतम् गौरो न तृषितः पिब इमे सोमास इन्द्रवः सुतासो अधिबर्हिषि ताङ्ग्रसहसे पिब अयन्ते सोमो अग्र्यो हृदि स्पृगस्तुशन्तमः अथ विश्वमित्सवनम् सुतमिन्द्रो मदाय गच्छति पुत्रः सोमपीतये शेमन्नः काममापृणगोभिरश्वैश्वक्रतो स्तवाः मत्ता स्वाध्याः इन्द्रावरुणयोरहम् सम्राजोरवृळे तानो मृळात ईदृशे गन्ताराहिष्ठोपसे हवम् विप्रस्यमावतः धर्ता राजर्षणीना अनुकामम् दर्पयेथामिन्द्रा वरुणराय तावान्नेरिष्ठ मीमहे युवाकुहिशचीनाम् युवाकुसुमतीनाम् भूयामवाजराम्नाम् इन्द्रः सहस्रनाम्नाम् वरुणः शंस्यानाम् चतुर्भवत्युख्याः करोदवसा वयम् सनेमनि च धीमहि ुतप्ररेचनम् इन्द्रावरुण वामहम्भुवे चित्राय राधसे अस्मान्सु जिगुषस्कृतम् इन्द्रावरुणनोऽनु वांसिषा सन्देशु धीष्वा अस्मभ्यम् शर्म हुवे या कक्षेवन्तय औषिदः यो रेवान्यो अमी बहावसु वित्पुष्टिवर्धनः सनस्य शक्तुयस्थुरः मानशंसो अररुषो धूर्ति प्रणङ्मर्त्यस्य रक्षाणो ब्रह्मणस्पते सखा वीरो नरिष्यति यमिन्द्रो ब्रह्मणस्पतेः सोमो अहिनोतिमर्त्यम् ्रह्मणस्पते सोम इन्द्रश्चमर्त्यम् दक्षिणापा त्वम् हसः सरसस्पतिमद्भुतम् प्रियमिन्द्रस्य काम्यम् मेधामयाशिषम् यस्मा आदृतेन सिद्ध्यति यज्ञोऽपि पश्चिदश्च न स दीनाम् योगमिन्वति आदृध्नोति हविष्कृतिम् प्राञ्चम् कृणोत्यध्वरम् न राशंसम् सुदृष्टममपश्यम् सप्रथस्तमम् दिवो न सद्ममखसम् प्रतित्यम् चारुमध्वरङ्गो पीठाय प्रभूयसे मरुद्भिरग्नागहि न हि देवो न मर्त्यो महस्तवक्रतुम् परः मरुद्भिरग्नागहि ये महोरजसो विदुर्विश्वे देवासो अद्रुहाः मरुद्भिरग्नागहि य उग्रा अर्कमा नृजुरना धृष्टा स ओजसा मरुद्भिरग्नागहि ये शुभ्रा घोरमर्पसः सुक्षत्रासो निशादसः मरुद्भिरग्नागहि येना कस्याधिलोचने दिवि देवास आसते मरुद्भिरग्नागहि य ईङ्घयन्ति पर्वतान्तिरः समुद्रमर्णवम् मरुद्भिरग्नागहि आजे आज तंत अभित्वा स मुद्रमोजसा मिना अभीअपीत सृजा सौम्यम मधु प्रथमाष्टके प्रथमा प्रथमोध्या